हरि ओं श्रीसीतारामचन्द्रभ्या नमः अथ श्रीमद् वाल्मीके रामायणे युद्धकाण्डे नवतितमः स्वर्ग इन्द्रजीत लक्ष्मणयोर्घोरं युद्धम् इन्द्रजितो वधश्च सता महतेज होमौतिष्ठन्निचर है इन्द्रजीत परम क्रुद्ध तेजसा तौ धन्विनो निघान् सन्तौ अन्योन्यम् विचुभिर्भृशम् विजयिनाभिनिष्क्रान्तौ गुणे गजवृषो इव निबर्हन्यश्चान्योन्यम् ते रक्षसव नौकसः भर्तारम् न जहुर्युद्धे सम्पतन्तस्ततस्ततः ततस्तान् राक्षसान् सर्वान् भर्शयन् रावणात्मजः सुन् सुन्वानु हर्षमाणश्च इदम् वचनमब्रवी तमसा बहुलेनेमा संसक्ता सर्वतो दिश नेह विज्ञायते सो वा परो वा राक्षसोत्तमः दृष्टम् भवन्तो युध्यन्तु हरिणां मोहनाय वै अहं तु रथमासाय आगमयिष्यामि संयुगे तथा भवन्तः कुर्वन्तु यथे मे हि वनौकसः न युध्यर्यु महात्मान प्रविष्टे नगरम् मयि इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः प्रविवेश पुरीम् लङ्काम् रथहेतो मित्रः स्वरसम्भूषयित्वाथ रुचिरम् हेमभूषितम् प्रासासी युक्तं युक्तम् परमवाजिभिः अधिष्ठितम् हयज्ञेन सुतेनाप्तोपदेशिन आरुरोह महातेजा रावणी समितिञ्जयः स्वराक्षसगणैर्मुख्यै व्रतो मन्दो दधी सुतः निर्ययो नगराद्वीर कृतान्तः बलचोदितः सोऽभिनिष्क्रम्य नगरात् इन्द्रजीत् परमोजसा अभ्यया जवने अश्वै लक्ष्मणं स विभीषणम् ततो रथस्थम् आलोक्य स्वमित्री रावणात्मजम् वानराश्च महावीर्या राक्षसश्च विभीषणः विस्मयम् परमम् जग्मु राघवात्तस्य धीमतः रावणैश्चापि सङ्क्रुधो संक्रुद्धो वा नरयूथपान् पातयामास बाणो भै शतजोऽथसहस्रश स मञ्जलीकृतधनु रावणी समितिञ्जय हे हरिनभ्य हनक्रुद्ध परं लाघवमाश्रितः ते वध्यमाना हरयो चे भीमविक्रमः स्वमित्रिम् शरणम् प्राप्ता प्रजापतिमिव ततः समर कोपेन ज्वलितो रघुनन्दनः चिच्छेदकार्मुकम् तस्य दर्शयन् पाणिलाघवम् सोऽन्यत् कार्मुकमादाय तरन्निवे तदप्यस्य त्रिभिर्वाणे लक्ष्मणो निरकुन्तत अथैनं छिन्न धन्वानम् आशीवीषविशोपमयि विव्याधोरति सौमित्री रावणीं पञ्चभीक्षरै ते तस्य कार्यं निभिद्य महाकार्मुकी कर्मुकनिसृतः निपेतुर्धरणिं बाणा रक्ता महोरगा स्वच्छिन्न धन्वारुधिरम् भवन् वक्त्रेण रावणिः जग्राह कर्मक श्रेष्ठम् धृढज्जम् बलवत्तरम् स लक्ष्मणम् समुद्दिश्य परं लाघवमाश्रितः स्ववर्ष शरवर्षाणि वर्षाणि व पुरन्दरः मुक्तम् इन्द्रजिता तत्तु शरवर्षम् अरिन्दम् आवाद यद सम्भ्रातु लक्ष्मणः सुदुरासनम् सन्दर्शयामास तदा रावणीम् रघुनन्दनः असम्भ्रान्तु महतेज तदद्भूतम् इव भवेत् ततः तान् राक्षसान् सर्वान् त्रिभिरेकैकमाहवे अविध्यत् परम क्रुद्ध शीघ्रास्त्रम् सम्प्रदर्शयन् राक्षसेन्द्र चापि बाणो घै समर्ताडयत् सिविद्ध बलवता शत्रुणा शत्रुघातिन असक्तम् प्रेषयामास लक्ष्मणाय बहुचरान् तान् प्राप्ताञ्चिते बाणी चिच्छेद परवीरः सारथैरस्य चरणे रथिनो रथसप्तमः रत शिरोजार धर्मात्मा नानत भल्लेनानतपर्वण असूतास्ते हयातत्र प्रचमोहोरविक्रवः मण्डलान्यभ्यवन्ति तदद्भूतमिवभवत् अमर्ष वशमापन्न स्वमित्रे दृढविक्रमः प्रचबिद्यन्तस्य चरैर्मित्रायन्द्रणे अमर्षमाण सत्कर्म रावणस्य सुतोरणे व्याधदश भीबाणै सौमित्रीम् तममर्शणम् ते तस्य वज्रप्रतिमाः शरासर्प विशोपमः विलयम् जगमुरागत्य कवचम् काञ्चनप्रभम् अभेज्य कवचम् मत्वा लक्ष्मणम् रावणात्मजः ललाटे लक्ष्मणम् बाणे सुपुङ्खये श्रीभिरिन्द्रीन्द्रजे अविध्यत् परमक्रुद्धे शीघ्रम् अस्त्रम् प्रदर्शयन् तै पृषत्कैरलाटस्थै शुशुभे रघुनन्दनः रणघ्रे समरश्लाघी त्रिशृङ्गमिव पर्वतः स्व तथाप्य ऋतो बाणे राक्षसेन तथा मृधे तम् राशु विकृषेन्द्रजितो युद्धे वदने शुभकुण्डले लक्ष्मणेन्द्र जितो वीरो महाबलशरासनौ अन्योन्यं जघ्नुतुर्वीरो विशिखये भीमविक्रमौ ततश्चोणित दिग्धाङ्गौ लक्ष्मणेन्द्रजितौ भवणेतो रिजतुर्वीरो पुष्पितौ एव किञ्चुकौ तव परस्परमभ्यत्य सर्वगात्रेषु धन्विनो घोरैर्विव्यधनुर् धर्वाणी कृतभावो भोजये ततः कोपेन संयतो रावणात्मजहे विभीषणम् त्रिभिर्वाणी विव्याध वदने शुभे अयमुखे त्रिभिर्विद्वा राक्षसेन्द्रम् विभीषणम् एककेक्राध तवान्थ पान तस्मेंतरम क्रुद्धो जघान गो महातेज रावणों से दुरात्म सहता द्लुक रथे अथ शक्ति महातेज मित्रों मोच तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः चिच्छेदनिशदेवाणे दशधा पातयद्भुवि तस्मै दृढ धनुक्रुद्ध हताश्वाय विभीषणः वज्रस्पक्षमान् पञ्च स स जोरतिमार्गान् ते तस्य कायम् भित्वातु तु रुक्मपुङ्खा बभूवुरोहिता दिग्धा रक्ता इव महोरगा सपितृव्यस्त संक्रुद्ध इन्द्रजे चरमाददे उत्तमं रक्षसा यमदत्तं महाबलः तं समीक्ष्य महातेजा महेशुं तेन संहितं लक्ष्मणोऽप्याददे बाणम् अन्यद्भीमपराक्रमः कुबेरेण स्वयं स्वप्ने यद्दत्तं नियमितात्मनः दुर्दयं दुर्विजयम् च सेन्द्रैरपि सुरासुरै तयस्तु धनुषि श्रेष्ठी बाहुभि विकृष्यमाने विकृष्यमाणे बलव क्रञ्चयैव चुपूजतु ताभ्याम् तु धनुषि श्रेष्ठे संहितौ सायकोत्तमौ ष्यमाणो वीराभ्याम् बृहं जज्वलतु श्रिया तौ आकाशं आकाशम् धनुर्भ्याम् विशिखौ च तौ मुखेन मुखमाहत्य सन्निपेतः तुरोजस सन्निपातः तयो चासीत् शरयोर्भोरधूपयोः स धूमविस्फुरिङ्गश्च तज्जोग्निररुणो भवेत् तव महग्रहसङ्काशौ अन्योन्यम् सन्निपत्य च सङ्ग्रामे चैषदधायातो मेदिन्यां चैव पेतुः शिरो प्रति हतो दृष्ट्वा तौभरणमूर्धनी प्रीडितौ जातरोषो च लक्ष्मणेन्द्रजितो तदा सुसंरब्धः सुस्वामित्री अस्त्रं वारुणमाददे रौद्रह्मेन्द्रजिते अप्यसृजेद्युधि निश्चितः तेन तद्भितं शस्त्रं वारुणम् परमाद्भुतम् ततः क्रुद्धो महातेजा इन्द्रजीत समितिञ्जयः अग्नै सन्दधे दीप्तं स लोकं संक्षिपन्निवे सौरेणाशेन तद्वीरो लक्ष्मण पर्यवारयम् निवारितम् दृष्ट्वा रावणी क्रोधमूर्च्छितः आदते निशितम् बाणम् आसुरम् चतुर्धारणम् तस्मात् चापाद् विनिष्पेतु भास्वरः कूटमुद्गरः शूला नीच भृण्ड्यश्च गदा खड्ग परश्वध तद्दृष्ट्वा लक्ष्मणः सङ्ख्ये घोरम् अवार्यम् सर्वभूतानाम् सर्वशस्त्रविधारणम् माहेश्वरेण दितिमान् सदस्रम् प्रत्यवारयत् तयोसम् अभवद्युद्धम् अद्भुतम् रोमर्चनम् जगनस्थानि भूतानि लक्ष्मणम् पर्यवारयन् भैरवाभीरते भीमे युद्धे वानर भूतये बहुभिकाशम् विस्मितै आवृतं बभो ऋषय पितरो देवा गन्धर्व गरुडो रग शतक्रतुं पुरस्कृत्य ररक्षो लक्ष्मणं ऋणे अथान्यं मार्गण श्रेष्ठं कन्दभे राघवानुज उताश न समस्पर्शम् रावणात्म सुपत्रं अनुवृत्ताङ्गम् सुपवर्वाणम् सुसंस्थितम् सुवर्ण विकृतम् वीर शरीरान्तः दुरावारं चरम् दुराभारम् दुर्विषहम् राक्षसानां भयावहम् आशीविष विषप्रक्षम् देवसङ्गये समर्चितम् येन शक्रो महातेज पुरा देवा देवासुरे युद्धे वीर्यवान् हरिवाहनः अथेन्द्रम् अस्त्रं सौमित्री संयुगेष्व पराजितम् शरश्रेष्ठम् धनुश्रेष्ठे विकर्षन् इदमब्रवीत् लक्ष्मीवान् लक्ष्मणो वाक्यम् अर्थसाधकमात्मनः धर्मात्मा सत्यसन्धश्च रामो पौरुषे च प्रतिद्वन्द्वय तदैनं जहिरावणिम् इत्युक्त्वा बाणमाकर्णम् विकृष्य तम् जिम्मघम् लक्ष्मण समरे वीर सजेन्द्रजितम् प्रति इन्द्राश्रेण समायोज्य लक्ष्मण परवीरः सक्षिर स शिरस्त्राणम् श्रीमज्ज्वलितकुण्डलम् पातयामास भूतले तद्राक्षस तनोजस्य भिन्नस्कन्धं शिरोमहेत् तपनीय निभं भूमौ ददृशे रुधिरोक्षितम् हठ स निपपाताथ धान्याम् रावणात्मजः कवची स शिरत्राणो विप्रविद्धः शराशनः वानरसविभीषणः पृश्यन्ते नेते तस्मिन् देवा वृत्र अवधेयथा अथान्तरिक्षे देवानाम् ऋषीणाम् च महात्मनाम् यज्ञेथ जयसन्नादो गन्धर्वाप्तरसामपि पतितं समभिज्ञाय राक्षसी सा मह वध्यमाना दिशो भेजे हरिभिजितकाशिभिः वा नरैर्वे शस्त्रसृज्य राक्षसा लङ्कामभिमुखा सस्रु भक्षन्याः प्रधाविताः दुद्रुः बहुधा भीता रक्षसा शतचोदिषः त्यक्त्वा प्रहरणान् सर्वे पट्टि छासी परश्व केचिलङ्कां परिक्रता प्रविष्टा वानराजिताः समुद्रे पतिता केचित् केचित् पर्वतमाश्रितः हतमिन्द्रितम् दृष्ट्वा शयनम् च रक्षितो राक्षसानाम् सहस्रेषु न कश्चित् प्रत्यदृश्यते यथा सङ्गतादित्ये नावतिष्ठन्ति रज्मयहे तथा तस्मिन् निपतिते राक्षसा गतदिशः शान्तरस्मिरिवादित्यो निर्वाणा इव पावकः बभूव स महाबाहु व्यपातः गतजीवितः प्रशान्त पीडा बहुल विनकारी प्रहसवान् बभूवलोकपतिते राक्षसेन्द्र सुते तदा हास्यं शक्रो भगवान् सः सर्वैः महर्षिभिः जगाम नियते तस्मिन् राक्षसे पापकर्मणि आकाशे चापि देवानां शुश्रुवे दुन्दुभि स्वनः नृत्यद्भि अप्सरोभिश्च गन्धर्वै च महात्मभिः प्रवशुः पुष्पवर्षाणि तदद्भूतम् इव भवेत् प्रशशामहते तस्मिन् शक्षते क्रूरकर्मणि शुद्धा पो न भवेत्यैव ज्योरुषुर्देव दानवः अजग्मु पतिते तस्मिन् सर्वलोकभयावहे ऊचुश्च सहितास्तुष्टा देवगन्धर्व दानवः विज्वरा शान्तकलुषा ब्राह्मणा विचरन्विति विचरन्ति ततोऽभ्यनन्दन् संवृष्टा मरे हरियूथप तमप्रतीवरं दृष्ट्वा हतं नै ऋतपुङ्गवम् विभीषणो हनुमाचे जमवाच क्षयूथप विजयेनाभिनन्दन्तव तु लक्ष्मणम् क्रीडन्तश्च प्लवन्तश्च गर्जन्तश्च प्लवङ्गमः लब्धलक्षा रघुसुतम् परिवार्योपतस्थिरे लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानरः लक्ष्मणो जेतीत्येव वाक्यम् विश्रावयम् ददाय अन्योन्यं च समाश्लिष्य हरयोरुष्टमानसः चक्ररुच्चावचगुणा राक्षवास, राघवा श्रीसथा कर्मफाभिवीक्ष्य रुष्टा प्रियसुरुतो युधि लक्ष्मण च कर्म परमम फलमं मनप्रश विनहसमिन्द्र रिपुं निशम्य देव विद्याध्ये श्रीमद् रामयणे वाल्मीकि अधिक वैद्धकाण्डे नवतितमः